श्रीमद्भागवतपुराणं श्रीमद्भागवतमहात्मे चतुर्थोऽध्यायः फलभक्षेण गर्भः स्याद्गर्भेणोदर्वृद्धता स्वल्पभक्षं ततो शक्तिर्गृहं कार्यं कथं भवेत् देवाद्घाटी व्रजे ग्रामे पलायैर्गर्भिणी कथम् सुकुवन्निवसद्गर्भतं विकुक्षे कथमुत्सृजेत् तिरुक्षेदागतो गर्भस्तदा मे मरणं भवेत् प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे मन्दायां मयि सर्वस्वं ननान्दाशङ्हरे तदा सत्यशौचादिनिमो दुराराध्य स्वदिश्यते लालने पालने दुःखं प्रसूतायास्य वर्तते वन्ध्या वा विधवा नारी सुखिनी चेति मे मतिः एवं कृतर्कयोगेन तत्फलं नैव भक्षितं पत्या पृष्टं भुक्तं भुक्तं चेतीतयेरितम् एकदा भगिनी तस्या तद्गृहं स्वेच्छया तदग्रे कथितं सर्वं चिन्तेयं महती हि मे नाशनुजे तेन दुःखेन शनुजे करवाणीकीं सा मम गर्भोऽस्ति तं दास्यामि प्रसूचितः तावत्कालं सगर्भेव गर्भेव गुप्ता गृहे सुखं वित्तं तं मत्पतिर्यच्छ सति दास्यति बालकम् षण्मासिको मृतो बाल इति लोकोपदिश्यति तं बालं पोषयिष्यामि नित्यमागत्य ते गृहे फलमर्पयधेऽन्वयित्वं परीक्षार्थं तु साम्प्रतं तत्तदाच्चरितं सर्वं तथैव श्रेष्वभावतः अथ कालेन सा नारी प्रसूता बालकं तदा आनीयजनको बालं रहस्ये ध्वलिं ददौ तया च कथितं भर्त्रे प्रसूत सुखमर्भकः लोकस्य सुखमुत्पन्नाम् आत्मदेव प्रचोदयात् ददौ दानं द्विजातिभ्यो जातकर्मभिधाय च गीतवादे त्रयोमत्रघोषोऽभूत्तद्वारे मङ्गलं बभू भर्तुरग्रेभ्रमिद्वाक्यं सन्न्यं नास्ति कुचे मम अन्यस्तन्येन निर्दुग्धा कथं पुष्णामि बालकम् मस्वसुश्च प्रसूताया मृतो बालस्तु वर्तते तामाकार्य गृहे रक्ष सातेभं पोषयिष्यति पतिना तत्कृतं सर्वं पुत्ररक्षणहेतवे पुत्रस्य धुन्धुकारीति नाम मात्रा त्रिमासे निर्गते चाथ साधेनुशुषुवेर्भकं सर्वाङ्गसुन्दरं दिव्यं निर्मलं कनकप्रभं दृष्ट्वा प्रसन्नो विप्रस्तु संस्कारां स्वयमादधे मत्वाश्चर्यं जनाः सर्वे दृक्षार्थं समागताः भाग्योदयोऽधुना जात आत्मदेवस्य पश्यत धेन्वा बालप्रसूतस्तु देवरूपीति कौतुकं न तद्रहस्यं तु केनापि विधियो गतः गोकर्णं तं सुतं दृष्ट्वा गोकर्णं नाम चाकरोत् कियत्कालेन तौ जातौ तरणौ तनयाबुभौ गोकर्णपण्डितौ ज्ञानी धन्दकारी महाखलः